अथ तृतीयोऽध्यायः उद्धव उवाच ततः स आगत्य पुरं स्वमित्रो श्रिकीर्षया संबलदेव संयुतः निपात्य तुङ्गाद्रिभुयूतनाथं हतं व्यकर्षद् व्यसुमोजसोर्व्यां सान्दीपने सकृत् प्रोक्तं ब्रह्मादीत्य स विस्तरं तस्मै प्राधात्परं पुत्रमृतं पञ्जले धरत् सामाहुता भीष्मकन्यया ये श्रियः सवर्णेन बभूषयैषा गान्धर्ववृत्यामिषदां स्वभागं जक्रे पदं मूर्नि ददत् खगुद्मधो विद्धनसोधमित्वा स्वयंवरेनाग्नजितिमुवाह तद्भग्नमानापि कृेक्षतः सस्त्रभृत स्वशस्त्रये प्रियं प्रभुर्ग्राम्य इव विदित् सुरार्चद्युतरुम् यधर्थे वज्रयात्रवत्थं सकणो रुशान्त क्रीडां मृगो नो न मयं वधूना दृष्ट्वा सुनाभोन्न मदिं धरित्प्रिया नयाय शेषम् दत्वा ददन्तः पुरमाविवेश तत्रा कृतास्ता नरदेवकन्या कुजेन दृष्ट्वा हरिमार्तबन्धुम् य सद्यो जगृहु सविधं जगृहे पाणेन् अनुरूपस्व मायया एकैकस्यां दश कालम् मागधसाल्वादीन् अनीकैरुन्धतः अजीगनस्वयं दिव्यं स्वपुंसां तेज आदिशत् संभरं द्विविधं भाणं पुरं पल्वलमेव च अन्यासदन्दवक्त्राधीन् अत ते भ्रातृपुत्रां पक्षयोः पतितान्नृपान् सचालभुक् कुरुक्षेत्रं येषामापतताम् भलैः सकर्णदुःसासनसौ भलानां कुमन्त्रपाकेन सुयोधनं सानुचरं स यानं भग्नोरुमौर्व्यां कियान् बुभोयं क्षपितो रुभारो यद्ध्रोण भीष्मार्जुन भीममूलैहे अष्टादशाक्षौहिणिको मधं सैहेम् आस्ते बलं यधूनां मितो यथैषां भविता विवाधो मध्वा मदाधां प्रविलोचनानां नैषां वधोपाय इयान्नोऽन्यो मय्युध्यतेऽन्तर्धतते स्वयं स्म एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाभ्य धर्मजं नन्दयामास सुहृत साधूनां वर्त्मदर्शयन् उत्तरायां धृतः पूर्वंशशात्मविभन्युना स वै द्रौण्यस्त्रसञ्चिन्नः पुनर्भगवता धृतः अयाजयद्धर्मसुतम् अश्वमे तैस्त्रिभिर्विभुः भगवानपि विश्वात्मा लोकवेदधानुगहान् कामांसि ङ्ख्यमास्थितः स्निग्धस्मितावलोकेन वाचा पीयूष कल्पया चरित्रेणानवध्येन श्रीनिकेतनसात्मना इमं लोकम् अमुं चैव रमयन् सुधरां व्यधून् रेमे क्षणदया धत्तक्षणस्त्रीक्षणः सौहृदः गृहमेधसु योगेषु विरागसमजायतान् दैवाधीनेषु कामेषु दैवाधीनः पुमान् को विस्रम्भेतयोगेन योगेश्वरं मनोव्रतः पुर्यां कदाचित् क्रीडत् वियदुभोजकुमारैह्यैः कोपि तामुनयस्ये पु भगवन्मत गोविधाः ततः कतिपयैर्मासैर्ष्णिभोजनान्धकाधयः ययुः प्रभासं संहृष्टारतैर्देव तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तधम्भसा तर्पयित्वादविभ्रेभ्यो गावो बहु गुणा ददुः हिरण्यं रजतं सय्यां वासांसि अजिनखम्बलान् यानं रथा निभान् कन्याधारं वृत्तिकरीमभि अन्नं चोरुरसंध्येभ्यो दत्वा भगवदर्पण गोविन्द्रार्तासव शुरा प्रणेमुर्भुभिमूर्धभिः इति श्रीमद्भागवते महापुराणे तृतीयस्कन्धे विदुर उद्धवसंवाते तृतीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा।